नारदपुराणं पूर्वार्थम् अध्यायं तर्टिसिक्स् शनक उवाच वेदमालेः सुतौ प्रोक्तौ यावोभौ मुनिसत्तमा यज्ञमालीसुमाली च तयोः कर्माधुनोच्यत तयोराद्यो यज्ञमालीविभेद पितृसञ्चिदम् धनं द्विधा कनिष्ठस्य भागमेकं ददौ तदा सुमाली च धनं सर्वं व्यसनाभिरकतः सदा अपादानादिभिश्चैव नाशयामास भो गीद गीतवाद्यरथो नित्यम् अद्यपानरतो भवत वेष्याविभ्रम लुब्धोऽस्सौ परदारदो भवद सर्वस्मिन्नाशमायादे हिरण्येऽपिदृशं चिदे अपहृत्य परं द्रव्यं वारस्त्री निरदो भवत दृष्ट्वा सुमालिनशूलं यज्ञमालीमहामतिः बभूव दुःखितो भ्रादरं चदमब्रवीद अलममत्यन्तकष्टेन वृत्तेनास्मत्कुलेऽनुज त्वमेक येवदुष्टात्मा दुष्टात्मा महापापरतो भवः एवं निवारयन्तं तं बहुशो ज्येष्ठसोदरं हनिष्यामीति निश्चित्य कङ्गहस्तत्कचे ग्रहीद ततो महारवेजज्ञे नगरे भृशदारुणः बबन्धुर्नागराश्चैनं कुपितास्ते सुमालिनम् यज्ञमालीह्यमेयात्मा पौरान् सम्प्रार्थ्य दुःखितः बन्धनान्मोचयामास भ्रातृस्नेहविमोहितः यज्ञमाली पुनश्चापि बिभिदे स्वधनं द्विधा आददे स्वयमर्धं च ददावर्धं यवीयसे सुमाली त्वदिमूढात्मा तद्धनं चापि नारद मूर्खै मूर्खैः पारण्डचण्डालैर्बुभुजे च असदा असदामुपभोगाय दुर्जनानां विभूतयः पितु मन्दःफलाढ्योऽपि काकैरेवोपभुज्यते भ्रात्रा दत्तं धनं तञ्जसुमाली नाशयन्मुने मद्यपानप्रमत्तश्च गोमांसा दीन्यभक्षयद त्यक्तो बन्धुजनैः सर्वैश्चाण्डालस्त्री समन्विदः राज्ञापि बाधितो विप्रपेदे निर्जनं वनं यज्ञमालीसुधिर्विप्रसदा धर्मरदो भवेद् अवरा अवाजिदं सत्संग गदकल्मशः पित्रा कृतानि सर्वाणि तडागादीनि सत्तम अपालयत्प्रयत्नेन सदा धर्मपरायणः विश्राणितं धनं सर्वं यज्ञमालेर्महात्मनः सत्पात्रदाननिष्ठस्य धर्ममार्गप्रवर्तिनः अहो सदुपभोगाय सज्जनानां विभूतयः कल्पवृक्षफलं सर्वमरैरेव भुज्यते धनं विश्राण्य धर्मार्थं यज्ञमाली महामतिः नित्यं विष्णुगृहे सम्यक् परिचर्या परो भवत् कालेन गच्छदात्तौ दु वृद्धभावमुपागतौ यज्ञमाली सुमाली काले चह्येककाले मृदाहुभौ हरिपूजा रतस्यास्य यत्नमालिमहात्मनः हरिः सम्प्रेक्षयामास विमानं Aruhya दिव्यं विमानमारुह्य यज्ञमाली महामतिः पूज्यमानसुरगणैस्तूयमानो मुनीश्वरैः गन्धर्वैर्गीयमानश्च सेवितश्चाप्सरो गणैः कामधेन्वापुष्यमाणश्चित्राभरणभूषितः कोमलैस्तुलसी माल्यैर्भूषितस्तेजसां निधिः गच्छन्विष्णुपदं दिव्यमनुजं पधि दृष्टवान् दाह्यमानं यमभटैः क्षोत्रभ्यां परिपीडितम् प्रेतभूतं विवस्त्रं च दुःखितं पाशवेष्ठितम् इदस्तदः प्राधावन्तं विलपन्तमनाथवद क्रोशन्तं च सुदन्तं च दृष्ट्वा मनसि विव्यधे यज्ञमाली दयायुक्तो विष्णुदूतान् समीपगान् कोऽयम्भटैर्बाढ्यमानम् इत्यापृच्छत्कृताञ्जलिः अधदे हरिदूदास्तं यज्ञमालिमहौजसम् असौ सुमालीभ्रादाते पापात्मेदि समभ्रुवन् यज्ञमालीसमाकर्ण्यव्याख्यातं विष्णुकिङ्गरैः मनः सा दुःखमापन्नः पुनः पप्रच्छ नारद कथमस्य भवेन्मोक्षसां चितैः पापसंचयैः तदुपायं वदद्ध्वं मे यूयं हि मम बान्धवाः सख्यं साप्तपदिनं स्यादित्याहुर्धर्मको विदः सदां साप्तपदी मैत्री सत्सदां त्रिपदीप् तथा सत्सदामपि ये सन्तस्तेषां पदे, पदे तस्मान्मे बान्धवा यूयं मां नेतुं समुपागताः यतोऽयं मम भ्राताभिमुच्यते तदिहोच्यतां यज्ञमालिवच श्रुत्वा विष्णुदूदा दयालवः पुनस्मिदामुखाः प्रोचुर्यज्ञमालिहरिप्रियं विष्णुदूदाऊचुः यज्ञमालिन्महाभागनारायणपरायण उपायम् तव वक्ष्यामः सुमालिप्रेम मुक्दिदम् कृतं यत्सुमहत्कर्म त्वया प्राक्तनजन्मनि प्रवक्ष्यामः समासेन ततृणुष्व समाहितः पुरा त्वं वैश्यजातीयो नाम्ना विश्वम् भरः स्मृतः त्वया कृतानि पापानि अहं त्यगणितानि वै सुकर्मवासनाहीनो मातापित्रोर्विरोधकृतयेकदा बन्धुभीष्ट्यक्रशोकसन्तापपीडितः शोधाग्निनापि सन्तप्तः प्राप्तवान् हरिमन्दिरं तदा वृष्टिरभूत्तत्र तत्स्थानं पङ्गिलं स्यभूत् दूरीकृतस्त्वया पङ्गस्तत्स्थाने स्थामिच्छया उपलेपनदाम् प्राप्तम् स्थानं विष्णुमन्दिरे त्वयोषितं तु तद्गात्रौ तस्मिन् देवालये द्विजदंशिदश्चैव सर्पेण प्राप्तं पञ्चत्वमेव तेन पुण्यप्रभावेन उपलेपकृतेन च विप्रजन्मत्वया प्राप्तं हरिभक्तिस्तथा चला कल्पकोटिशतं साग्रं सम्प्राप्य हरिसन्निधिं वसाद्य ज्ञानमासाद्य परमोक्षं गमिष्यसि अनुजं पादगिश्रेष्ठं त्वं समुद्धर्तमिच्छसि उपायं तव वक्ष्यामस्तं निबोध महामते गोचर्ममात्रभूमेस्तु उपलेपनजं फलं दत्वोद्धरमहाभागभ्रादरं कृपयान्विदः एवमुक्तो विष्णुदूदैर्यज्ञमाली महापतिः तत्फलं प्रददौ तस्मै भ्रात्रे पापविमुक्तयेत् सुमालीभ्रातृदत्तेन पुण्येन गदकल्मषः बभूव यमदूदास्तु तं त्यक्त्वा प्रपलायिताः विमानं चागदं सद्यः सर्वभोगसमन्वितम् तदा सुमाली स्वर्यानमारुह्य मुमुदे मुने तावुभौ भ्रातरौ विप्रसुरवृन्दनमस्कृतौ अवाप दुर्भृशं प्रीतिं समालिङ्ग्य परस्परं। यज्ञमालीसुमाली सुमाली स्तूयमानौ महर्षिभिः गीयमानौ च गन्धर्वैर्विष्णुलोकं प्रजग्मधुः अवाप्यहरिसालोक्यं सुमालीमुनिसत्तम यज्ञमालीचोषतुस्थौ कल्पमेकं मुदान्वितौ भुक्त्वा भोगान् बन्धुस्तत्र यज्ञमाली महामतिः तत्रैव ज्ञानसम्पन्नः परमोक्षमुपागतः सुमालीदुमहाभागो विष्णुलोके मुदान्विदः स्थित्वा भूमिं पुनः विप्रत्वं समुपागतः अधिशुद्धे कुले जादो गुणवान्वेदपारगः सर्वसम्पत्समोपेदो हरिभक्तिपरायणः व्याहरन्हरिनामानि प्रभेदे जाह्नवीतडं तत्र स्नातश्च गङ्गायां दृष्ट्वा विश्वेश्वरं प्रभुम् परमं स्थानं योगिनामपि दुर्लभम् उपलेपनमाहात्म्यं कथितं ते मुनीश्वर तस्मात् सर्वप्रयत्नेन सम्पूज्यो जगतां पतिः अकामादपि ये विष्णोः सकृत्पूजां प्रकुर्वते न भवबन्धस्तु कदाचिदपि जायते हरिभक्तिरदान्यस्तु हरिबुद्ध्या समर्चयेद् तस्य तुष्यन्ति विप्रेन्द्र ब्रह्मविष्णुमहेश्वराः हरिभक्तिपराणां तु सङ्गीनां सङ्गमात्रदः मुच्यते सर्वपापेभ्यो महापादगवानपि हरिपूजा पराणां च हरिनामरदात्मना शुश्रूषा निरधा यान्ति पापिनोऽपि परां गतिम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुसेवा प्रभावो नाम षट्त्रिंशोऽध्यायः ॐ